हरि ओम् श्रीजगदुम्बिकायै नमः अथ श्रीमद्देवी भागवतमहापुराणे प्रथमस्कन्धे चतुर्दशोऽध्यायः श्रोत उवाच दृष्ट्वा ताम् असि तापाङ्गीं व्यासश्चिन्तापरो भवेत् किं करोमि न योग्य देवकन्येयमप्सरः एवं चिन्तयमानं तु दृष्ट्वा व्यासं तदाप्सरः भयभीता हि सञ्जाता शापम् माम् विसृजेदयम् सा कृत्वा रूपम् निर्गता भयविह्वला कृष्णस्तु विस्मयम् प्राप्तो विहङ्गीम् तु विलोकयत् कामस्तु देहे व्यासस्य दर्शन देव सङ्गतः मनवती विस्मितम् जातम् विस्मितः सा तु धैर्येण महता निगृह्णन् मुनिः दशजाक नियन्तुं च स व्यासः प्रसृतं मनः बहुशो गृह्यमाणं च घृता च मोहितं मनः भावित्वान्नेव विधृतं व्यासस्यामिततेजसः मन्थनं कुर्वतस्तस्य मुनये अग्निचिकीषया अरण्यमेव ससा तस्य शुक्रमथापतत् सुविचिन्त्य तथा पातम् मम च तस्मात् शुकस्य मुद्भूतो व्यास करोति मनोहरः विस्मयम् जनयन् बाल सञ्जातस्तदरण्यजः यथाध्वरे समेधोऽग्नि भाति हव्येन दीतिमाम् व्यासस्तु सुतमालोक्य विस्मयम् परमम् गतः किम् एतदिति सञ्चिन्त्य वरदान तेजोरोऽपि शुभोदातोऽपि अरण्ये गर्भसम्भव द्वितीयोग्निवाच्य सन्दीप्यमानस तेजसा विलोकयामास तदा व्यासस्तु मुदितं सुतम् दिव्येन तेजसा युक्तम् गार्ह्यपत्यमिवा परम् गङ्गान्तः स्नापयामास समागत्य गिरे सदा पुष्पवृष्टि सुखा दाता जातकर्मादिकं चक्रे व्यासस्तस्य महात्मनः देवैदुन्दुभयो नेरु ननृतुश्चाप्तरोगणः जगुर्गन्धर्वपतयो मदिता ते दिवृक्षवः विश्वावसुर् नारदश्च तुम्बरुशुभसम्भवे तुष्टवो मदिता सर्वे देवा विद्याधरा तथा दृष्ट्वा व्याससुतं दिव्यम् अरणे अन्तरिक्षात् पतातुर्व्यम् दण्ड कृष्णार्जनम् शुभम् कमण्डलुस्तथा दिव्यशुक्रेद्विजोत्तमः सद्यस्य वृद्धे बालो जातमात्रोऽदीप्त्यमान् चक्रे व्यासो विद्याविधानवेत् उत्पन्नमात्रम् तं वेद स रहस्या सुसङ्ग्रहा उपतस्थोर्महात्मानम् यथा तथा यतो दृष्टम् शुकीरूपम् भूता च सम्भवे तदा शुकेति नाम पुत्रस्य चकार् मुनिसत्तमः बृहस्पतिम् उपाध्यायम् कृत्वा व्यासुतः सदा वतानि ब्रह्मचर्यस्य चकार् विधिपूर्वकम् शोधीत्य निखिलान् वेदान् सरहस्यान्तसङ्ग्रहान् धर्मशास्त्राणि सर्वाणि कृत्वा गुरुकुले शुकः गुरवे दक्षिणाम् दत्त समावृतो मुनिस्तदा आजगाम पितुः पाशम् कृष्णद्वैपायनस्य च धृष्ट्वा व्यास शुकम् प्राप्तम् त्रिवणोत्थाय सम्भ्रमः आलिलिङ्गहुर्गाणम् मूर्नी तस्य चकारः पप्रच्छ कुशलम् व्यास तथाभ्याचाध्ययनम् शुचिः आश्वास्य स्थापयामास शुकम् तत्राश्रमे शुभे सारकर्म ततो व्यास शुकश्च पर्यचिन्तयत् कन्यामुनि सुताम् कान्ताम् अपृच्छ सति वेगवान् शुकम् प्राह सुतम् व्यासो वेदोधीत स्वयानग धर्मशात्राणि सर्वाणि मामते कार्हस्थ्यम् च समासाद्य यज देवान् गुणा मोचय माप्य धारा मनोरमा जगते नगो नस्म महाभगुर आशा मे महते पुत्र पूरी तपस्त तप तप तप महा घौर प्राप्त मयो निज है ी महाप्रज पाही मितरम शुक सुवाच इवादीनम प्राप्त प्राशु सदा विरक्त श्रोतर दम साक्षा पिता मन शुक उच किं तम वदसी धर्म वेद व्यास महामती सत्धी शिष्य मददाजा कर्वाण्यलम व्यास उच त्वदर्थे यत्तम् मया पुत्र शतम् समः प्राप्तः त्वं चाति दुःखेन शिवस्याराधनेन च ददामि तव वित्तम् तु प्रार्थयित्वा प्राप्य यौवनमुत्तमम्वाच किं सुखम् मानुषे लोके ब्रूहीतात निरामयम् दुःखविद्धम् सुखम् प्राज्ञा न नदंती सुखम कि वशा सुखम स्त्रीजित विशेष कदाचि मुचेत लोह का पुत्रदारे निब्दस्तु नोचेत कर्मूत्र संभव देहो नारीण तन्मय तथा कप्रीतिं तत्र विप्रेन्द्र विबुध कर्तुमिच्छति अयो निजोऽहं विप्रश योनो मे कीदृशीमती न वाञ्छाम्यहम् अग्रेऽपि योनौ एव समुद्भवम् वित् सुखम् किमु वाञ्छामि तत्रात्मा सुखमद्भुतम् आत्माराम च भूयोऽपि न भवे चेपी च तिरोलप प्रथमम् पठिता वेदा मया हिंसा मया ते कर्ममार्ग प्रवर्तकः बृहस्पति गुरु प्राप्त सोऽपि मग्नो गृहान् वे अविद्याग्रस्तहृदयः कथम् धारयितुम् क्षमः योगग्रस्तो यथा वैद्यपररोगचिकित्सकः तथा गुरुर्मु मोक्षोर्मे गृहस्थोऽयम् विलम्बना कृत्वा प्रणामम् गुरवे त्वत्समीपम् उपागतः राहे माम् तत्र बोधेन भीतम् संसार सर्पतः संसारेऽस्मिन् माघोरे भ्रमणम् न चक्रवत् न च क्वापि सूर्यस्येव दिवानुषि किम् सुखम् तात संसारे नियतत्व विचारणात् मूढानाम् सुखबुद्धिस्तु वित्सुकी च सुखम् यथा संसारे रागिणश्चये परो न मूर्खोऽस्ति तद्धर्मकरै मानुष्यं दुर्लभम् प्राप्य वेदशास्त्राण्यधीत्य च बाध्यते यदि संसारे को वि मोर्चेत मानवः नातः परतरं लोके क्वचिदाश्चर्यमद्भुतं पुत्रदारण्डितः परिगीयते न बाध्यते यत् संसारे नरो माया गुणत्रिभिः स विद्वांस च मेधावीशास्त्रपारं गतो हि सः किं वृथाध्ययनेनात्र दृढबन्धकरेण च पठितव्यम् तदेवशु मोचयेद्भवन्दनात् गृह्णाति पुरुषम् यस्माद् गृहं तेन प्रकीर्तितं क्व सुखम् बन्धुनाकारे तेन भीतोऽम्यम् ये बुधा मन्दमतयो ते प्राप्य मानुषम् जन्म पुनर्बन्धम् विषन्त्युत व्यासोवाच न गृहम् बन्धनागारम् बन्धनेन च कारणम् मनसा यो विनिर्मुक्तो गृहस्थोऽपि विमुच्यते न्यायगत धन कुर्वन् विधिवत् क्रमात् गृहस्थोऽपि विमोचेत श्राजकृ सत्यवा शुचिः ब्रह्मचारी अपि चैव वानप्रस्थोतस्थित गृहस्थं मुसं मध्या क्रमे सदा श्रद्धया चादान वाचाया तथा उपकुवती धर्मस्था गृहश्रवासीन गृहश्रमात् धर्मो न दृष्टो न वैश्यु वशिष्ठादी आचार्य ज्ञानी सूपा किम साध्यम महाभगेद स्वर्गम् मोक्षम् च सज्जन्म यद्यद् वाञ्छन् वाञ्छति तद्भवेत् आश्रमादाश्रमम् गच्छेदिति धर्मविदो विदुः तस्मादग्निम् समाधाय कुरु कर्माण्यसन्दृतः देवात् पितरन् मनुष्या च सन्तर्कविधिवत्सुतः पुत्रम् उत्त्वाद्य धर्मज्ञ संयोज्य च गृहाश्रमे त्यक्त्वा गत्वा कर्ता स्वीवृतमुत्तमम् वानप्रस्थाश्रमम् कृत्वा सन्न्यासम् च तदपरम् इन्द्रियाणि महाभाग मादकानि सुनिश्चितम् अदार्यस्य दुरन्तानि पञ्चैव मनसा सह तस्मात् दारान्तपूर्वीत तज्जयाय महामते वार्धके तप तिष्ठेत् इति शास्त्रोर्जम् वचः विश्वामित्रो महाभाग तपक् तिदुश्चरम् त्रीणि वर्षसहस्राणि निरहरोजतेन्द्रिय मोहितश्च महतेजा वने मेनकया सितः शकुन्तला समुत्पन्ना पुत्री त्वद्वीर्य शुभा दृष्ट्वा दाशसुधाम् कालिम् पिता मम पराशरः कामबाणार्थिषक्यां तां जग्राहोडुपेस्थितः ब्रह्मापि स्वसुतां दृष्ट्वा पञ्चबाण धावमानश्च रुद्रेण मूर्छितश्च निवारितः तस्मात् तम् अपि कल्याण कुरुम्बे वचनम् इदम् कुलशाम् कन्यकामृत्वा वेदमार्गम् समाश्रय इति श्रीमद्देवी भागवते मापुराणे अष्टादशसहस्र्याम् संहितायाम् प्रथमत् गन्धे व्यासेन गृहस्थ श्रीयजगदम्बिकायार्पणमस्तु